मा साहसमितीदं सा सततं वासते किल साहसं चात्मनातीव नावबुध्यते साहि भीष्ममुखात् सिंहस्य खादतः दन्तान्तरविलग्नं यत्तदा दत्तेऽल्पचेतना इच्छतः सा हि सिंहस्य भीष्मजीवत्यसंशयं तद्वत्त्वमप्यधर्मिष्ठ सदा वाचः प्रभाषसे इच्छताम् भूमिपालानाम् भीष्मजीवस्य संशयं लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः वैशम्पायन उवाच ततश्चेदिपते श्रुत्वा भीष्मः सकटुकं वचः उवाचेदं वचो राजंश्चेदि राजस्य शृण्वतः इच्छतां किल नामाहं जीवां येषां महीक्षितां सोऽहं न गणयां येतां स्तृणेनापि नराधिपान नाधिपन्मुक्न तत सचुक्रुशु तत्र केचिज्जहृषि केचि जगरहिरे।